समक्षं वासुदेवस्य देवस्येवशतक्रतोः कर्माण्यसुकराण्यन्यैरा चक्षे जनाधिपशृण्वतां पार्थिवानाञ्च चा धर्मराजस्य चांतिके। इदं मतिमतां श्रेष्ठः कृष्णं प्रतिविशाम्पते साम् नैवामन्त्र्यराजेन्द्रचेदिराजमरिन्दमम् भीमकर्मा ततो भीष्मो भूयः स पिराजानं युधिष्ठिरमुवाचः भीष्म उवाच वर्तमानामतीताञ्च शृणुराजन् युधिष्ठिर ईश्वरस्योत्तमस्यैनाम् कर्मणाम् गहनाम् गतिम् अव्यक्तो व्यक्तिंगस्थो यगवा प्रभु पुरा नारायणो दयंभू प्रपितामह। सहस्रशीर्ष पुषो ध्रुवो व्यक्त सनातन सहस्राक्ष सहस्र्य सहस्रचरण विभु सहस्रबा सहस्रो देवो नाम सहस्रवान् सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः असृजत्सलिलं पूर्वं स प्रभुः ततस्तु भगवास्तोये ये ब्रह्मा चतुर्मुखो लोकान् सर्वां स्थानसृजत् स्वयम् आदिकाले पुराह्येवम् सर्वलोकस्य चोद्भवः पुराथप्रलये प्राप्ते नष्टे स्थावरजङ्गमे ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् एकस्तिष्ठति सर्वात्मा सतु नारायणः प्रभुः शशिभास्करो इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः सर्वं व्याप्य हरिस्तस्थौ सूत्रम् मणिगणानिव आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वम् तमोन्वितम् नारायणो महायोगी सर्वज्ञः परमात्मवान् ब्रह्मभूतस्तदात्मानं ब्रह्माणमसृजत् स्वयं सोऽध्यक्षः सर्वभूतानां प्रभूतः प्रभवोच्युतः सनत्कुमारं रुद्रं च मनुं चैव तपोधनान् सर्वमेवा सृजद ब्रह्म तथो लोकाथा ते चव्यसृजस्त काले युधिष्ठिर तेभ्यो युधिष्ठि तेभ्योन्महात्म्यो बहुधाशत कल्पना बहुकोट्य सतीता हि भारत आभूतसंवा बहु कोट्योतिचक्रमुः मन्वन्तरयुगेजस्रं सकल्पा भूतसम्प्लवा चक्रवत्परिवर्तन्ते सर्वं विष्णुमयं जगत। सृष्ट्वा चतुर्मुखम् देवं देवो नारायणः प्रभुः सलोकानां हितार्थाय क्षीरो देवसति प्रभुः ब्रह्मा च लोकस्य च पितामहः ततो नारायणो देवः प्रपितामहः अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः नारायणो जगच्चक्रे प्रभवाप्यय संहितः एष नारायणो भूत्वा हरिरासीद्युधिष्ठिर ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयं बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान् सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः ब्रह्माणं कपिलं चैव परमेष्ठिनमेव च देवान्सप्तर्षींश्चैव शङ्करं च महायशाः सनत्कुमारं भगवान्मनुं चैव प्रजापतिं पुराचक्रेथ देवादीन् प्रदीप्ताग्निसमप्रभः